हरि ओं श्री सीतारामचन्द्राभ्यं नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकादशाधिकशतमः सर्गः मन्दोधर्या विलापु रावणा शवश्च दाहश्च तासां मिलपमानानां तदा राक्षस ज्येष्ठपत्नी प्रिया भर्तारं समुदैक्षत दशग्रीवम् हतं दृष्ट्वा रामेण चिन्त्यकर्मणा पतिं मन्दोदरी तत्र कृपण पर्यदेवयत् ननु नाम महाबाहु तव वै श्रवणानुज क्रुद्धस्य प्रमुखे सातुम् तस्य चेपि पुरन्दरः ऋषेश्च गन्धर्वाच यशस्विनः न नो नाम तमोद्वेगात् चारणाश्च रिषु गतः सत्त्वम् रामेण युधि निर्जितः किमिदम् राक्षसेश्वर कथं त्रैलोक्यमाक्रम्य श्रिया चान्वितं, चान्वितम् अविषह्यम् मानुषो वनगोचरः मानुषाणाम् विषये चरथ कामरूपिण विनाश तव रामेण संयुगेनोपपद्यते न चैतत्कर्मरामस्य श्रद्धामि च भूमुखे सर्वतः समुपेतस्य तव तेनाभिमर्शणम् कृतान्तः स्वयम् आगतः मायं तव विनाशाय विधाय प्रतितर्किताम् अथवा वासवेन तम् दर्शितोऽसि महाबल वासवस्य च का शक्ति त्वम् द्रष्टुम् अपि संयोगे महाबलम् महावीर्यम् देवशत्रुम् महोजसं व्यक्तम् एष परमात्मा सनातनः अनादिमध्य महते महतः परमो महन् तमस परमो दाता शङ्ख चक्र गदाधर श्रीभत्सरक्षा नित्य श्री रजय्य शाश्वतो ध्रुव मानुषं पराक्रमः सर्वै परिवृतो देवै वानर तमुपागतै सर्वलोकेश्वर श्रीमान् लोकानाम् हितकाम्यया स्वराक्षसपरिवारम् देवशत्रुम्भय इन्द्रियाणि पुराजित्वा जितन्त्री भुवनम् त्वया स्मरद्भिरिव तद्वैरम् इन्द्रियैरेव निर्जितः यदैव हि राक्षसे बहुभिवृतः खर त्व नेतो भ्राता तदा रामो न मानुषः यदैव नगरीं लङ्काम् दुष्प्रवेशां सुरैरपि प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयं क्रियतामविरोधश्च राघवेणेति यन्मया उच्यमानो न तस्य इयं वृष्टिः रागता अकस्माच्चाभिकामोऽषि सीतां राक्षस पङ्गव ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च अरुन्धत्या विशिष्टान्ताम् रोहिण्या चापि दुर्मते सीतां दर्शयतामान्यां त्वया ह्य सदृशं वसुधाया हि वसुधाम् श्रिया श्रीम् भर्तृवत्सलाम् सीतां सर्वान्नवद्याङ्गीम् अरण्ये विजने शुभम् आनयित्वा तु ताम् दीनां चद्मनात्म सुदूषणम् तत् प्राप्य तं चैव कामम् बैथिली सङ्गमे कृतम् पतिव्रता यात प्रसा नूनम् दग्धोऽसि मे प्रभो तदैव यन्न दग्धस्तम् दर्शयन्तनुमध्यमाम् देवा बिभ्यसि ते सर्वे सेंद्रा अवश्यम् एव लभते परम् पापस्य कर्मणः भक्ष् पर्यागते काले कर्ता नास्त्यत्र संशयः शुभकृत् शुभमाप्नोति पापकृत् पापमश्नुते विभीषण सुखम् प्राप्त सम्प्राप्त पापमीदृशम् सन्तन्या प्रमदास्तुभ्यं रूपेणाभ्यर्थिकास्त अनङ्गवशमापन्न तन्तु मोहान् बुध्यसे न कुलेन न रूपेण न दाक्षिण्येन मैथिली मयाधिका वा तुल्या वा तत्तु मोहान् बुध्यसे सर्वदा सर्वभूतानाम् नास्ति मैथिली तव तद्वदयं मृत्यु मैथिलीकृतलक्षणः जो मृत्यु त्वया दूरादुपासृतः मैथिली सह रामेण अशोका विहरिष्यति अल्पपुण्यः त्वहं घोरे पतिताशोकसागरे कैलासे मन्दरे मेरो तथा चैत्र रथेवने देवोद्यानेषु सर्वेषु विहृत्य सहिता तया विमानेनानुरूपेण या याम्य पश्यन्ति विविधान् देशान् तान् तान् चित्रगम्बरः भ्रंशिता कामभोगेभ्यः सास्मि वीरवधातव सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम् हाराजन् सुकुमारं ते शुभ्रू त्रैकमुन्नसं कान्ति श्रीज्युतिभितुल्यम् इन्दुपद्मदिवाकरे किरीटकूटो ज्वलितम् ताम्रास्यं दीप्तकुण्डलम् मदव्याकुल लोलाक्षम् भूत्वा यत्पा न भूमिषु वल्गुस्मि त कथं शुभम् तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभ रामसायक निर्भिन्नम् रक्तम् रुधिर्विश्रवै विशीर्णम् एदो मस्तिष्कम् वृक्षं चन्दन रेणुभि हा पश्चिमाम्भेतं प्राप्ता दशा वैधव्यदायिनी या सिन् कदाचिप मंदया पिता देश भक्ता मे रक्षसे पुत्रो मे शक्र निर्जेता इं गर्वित्रृशं दृप्त रे मथना क्रूरा प्रख्यात बलपौरुष अकुता चीत भयानाथ मेत्याशीमती ध्रुव तभा युष्माकम् राक्षसर्षभ कथम् भयम् असम्बुद्धम् मानुषादिनमागतं स्निग्धेन्द्र अल नेल नीलं तु प्राशुशैलोपमं महत् केयोराङ्गदवैदुर्य मुक्ताहारस्र उज्ज्वलम् कान्तम् विहारेष्वधिकम् विद्युद्भिरिवतो यद तदेवाद्य शरीरं ते तीक्ष्णै नैक शरीश्चितं पुनर्दुर्लभ संस्पर्शम् नशक्यते न शक्यते स्वाविधये शलैर्यद्वैत बाणैर्लग्ने निरन्तरम् सर्पितैर्म सुभुजम् सिन्न स्नायु बन्धनम् राजन् श्यामं वैरुधिरक्षवी वज्रप्रहाराभियतो विकीर्ण इव पर्वतः ह सप्नस्तस्य बेबेदम् त्वं रामेण कथं हत तृत्योरपि मृत्यु स्यात् कथं मृत्यु वशङ्गतः त्रैलोक्ये वशुभोक्तारम् त्रैलोक्यो द्वेगदम् महेत् जैतारम् लोकपालानां लोक क्षिप्तारं शङ्करस्य च द्रुप्तानां निग्रह निगृहीतारम् आविष्कृतः पराक्रमम् लोकक्षोभयितारं च साधुभूतविधारणम् ओजसा दृप्तवाक्यानां वक्तारं नृपसन्निधौ स्वयूथभृत्य गोप्तारं हन्तारं भीमकर्मणां हन्तारं दानवेन्द्राणां यक्षाणां च स्रज निवात कवचानां तु निगृहीतार महवे नैकयज्ञ विलोक्तारम् त्रातारम् सजनस्य च धर्मव्यवस्थाभित्तारम् माया स्रष्टार् महवे देवासुरनृकन्यानाम् आहर्तारम् ततस्ततः शत्रुस्त्री शोकदातारम् नेतारम् सजनस्य च लग्गाद्वीपसि गोप्तारम् कर्तारम् अस्माकं कामभोगानां दातारं रथिरां वरम् एवं प्रभावं भर्तार रामेण पातितं स्थिरास्मि या देहमिमं धारयामि हत प्रिय शयनेषु महोरेषु शयित्वा कस्मात् प्रसुप्तोऽसि धरण्याम्रेण गुण्ठितः यदा मे तन यच्छस्तु लक्ष्मणेन्द्रुधि तदा देवनम् अद्य तस्मिन् निपातिता साहं बन्धुजने हीना हीनानाथेन च त्वया विहीनाय कामभोगैश्च शोचिषे शाश्वती समः प्रपन्नो दीर्घमध्वानम् राजा नद्यः सुदुर्गमम् नयमपि दुःखार्तां न वर्तिषेतैव त्वया विना कस्मात् तं मां विहाये कृपणां गन्तुमिच्छसि दीनां विलपतिं मन्दाम् किञ्च मां नाभिभाषते दृष्ट्वा न खल्वभि क्रुद्धो मां निर्गता नगरद्वारात् पद्भ्यामेवागता प्रभो पश्येश्च दारसा दारास्ति भ्रष्ट लज्जा विगुण्ठनान् बहिर्निष्पतितान् सर्वान् कथं द्रष्ट्वा न कुप्यसी अयं क्रीडा साय्यसे अनाथोलालप्यते जनै न चैनं मास्तु साह्यसी किं वा न या स्वया विधवा राजम् कृता नैकाः पतिव्रता धर्मरता गुरुषु श्रोषणे रताः ताभिषु काभिः सप्ताभिः सप्त परावशं गतः स्वयाभिप्रः कृताभिश्च तदा सप्त सदागतं प्रवादः सत्यमेवायम् साम्प्रति प्रायशो नृप पतिव्रता नाम्नाकस्मात् पतन्त्याश्रूणि भूतले कथं च नाम ते राजन् लोकानाक्रम्य तेजसा नारी चौर्यमिदं क्षुद्रं कृतं सौन्दीर्यमानिन अपनीया श्रमद रामम् चन्द्र गच्छद्मना त्वया अनीता रामपत्नी सा च लक्ष्मणम् कातर्यं च न युद्धे कदाचित् संस्मराम्यहम् तत्तु भाग्यविभर् विपर्यासां नूनं ते पक्वलक्षणम् अतीतानागता सन्यो दृष्ट्वा ज्ञात्वा निश्शयतं सत्यवाक्ष महाबाहु देवरो मे यदब्रवीत् अयं राक्षसमुख्याणाम् विनाशः प्रत्युपस्थितः काम क्रोध समुद्धेन व्यसनेन प्रसङ्गिना निवृत्त तत्कृते नाथ सोऽयं मूलः रोमः त्वया कृतम् इदम् सर्वम् अनाथम् राक्षसङ्कुलम् न हि त्वम् शोचितव्यो मे प्रख्यात बलपौरुषः स्त्रीस्वभावात् बुद्धिः कारुण्ये परिवर्तते सुकृतं दुष्कृतं च गृहीत्वा स्वां गतिं गत तद्विनाशेन दुःखितां सुहृदां हितकामानां न श्रुतं वचनं त्वया भ्रातॄणां कास्नेन हितमुक्तं दशानन हेत्वा स श्रेयस्करं मदारुणम् विभीषणेनाभियति न कृतं हेतुमत्वया बाली च कुम्भकर्णाभ्याम् वाक्यं मामपि दृष्ट न कृतं वीर्यमत्तेन तस्येदम् फरमीदृशम् नील जीमत विनिक्षिप्य किं चेशेरुधिरावृतः प्रसुप्तयैव शोकार्ताम् किं मां न प्रतिभाष्यसे मा वीर्य दक्षस्य संयोगेश्वर पलायिनः यातु दानस्य दौहित्रीं किं मां न प्रतिभाष्यसे उत्तिष्ठस्तिष्ठ किं चे न वेपैरि भवे कृते अद्य वै निर्भया प्रविष्टा सूर्यरश्मयः येन सूदयसे शत्रुम् समरे सूर्यवचसा वज्रं वज्रधरस्येव सोऽयं ते स सर्चितः रणे बहुप्ररणो हेम जाल परिष्कृतः परिहो व्यवती व्यवकीर्णस्ते बाणे छिन्नसहस्रधा प्रियामिवोपसंगृह्य किं च शेरणमेदिनीम् अप्रियामेव कस्माच्च मां निश्चाभिभाषितुम् दिगस्तूयम् यस्य ममेदं न सश्रधा त्वयि पञ्च फलते शोकपीडितम् इत्येवं विलपन्ति सा बाष्पर्य कुलेक्षणा नैहोपस्कन्न सदा मोहम् भागमात् कष्मलाभीहता सन्न बभो सा रसी रसि सन्ध्यानुरक्ते जलदे दीप्ता विद्युत् दिवोज्ज्वल तथा कथां समुत्थाप्य स पत्न्यस्थाम् भृशातुरः पर्येव स्थापयामासु रुदत्यो रुदतीं भृशं किं देवी लोकानां स्थितिरध्रुवा दशाविभाग पर्याये राज्ञां वै इत्येवमुच्यमानासा स शब्दम् प्ररुरोधः स्नपयन्ती तदा श्रेण स्तनो वक्त्रम् सुनिर्मलम् एतस्मिन् अन्तरे रामो विभीषणम् उवाचः संस्कारः क्रियताम् भ्रातुः श्रीगणपरि शान्त्यताम् तयो देवान् विभीषण इदम् वचः विमृश्य बुद्ध्या प्रश्रीतं धर्मार्थसहितं हितं त्यक्तधर्मावृतं क्रूरम् दृशन्तमनृतम् तथा नाहम् अर्हामि संस्कर्तुम् परदाराभिमर्शनम् भ्रातृरूपो हि मे शत्रु एष सर्वा हि ते रतः रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् गुरु गुरु गुरु मृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि श्रुत्वा तस्याः गुणान् सर्वे वक्ष्यन्ति सुकृतम् पुनः तच्छ्रुत्वा परमप्रीतो रामो धर्मभृताम्बरः विभीषणम् वाचेदम् वाक्यज्ञम् वाक्यकोविदः तवापि मे कार्यम् तभा मायाजित अवश्यम तो क्षम वाच्यो मैयाम रासेशर अधर्मा नृत संयुक्त कामच निराचर तेजस्वी बलवां शूर संग्रामु चे शतक्रतू मुखदेव शूयते न पाजि रावणो लोक रावणः मरणान्तानि वैराणि निवृत्तं न प्रयोजनम् क्रेतारम् अस्य संस्कारो ममाप्यैष यथा तवे तत्सकाशान्नः बाहु संस्कारं विधिपूर्वकम् क्षिप्रम् धर्मेण संयशो भाग् भविष्यति राघवस्यैव च णो विभीषणः संस्कारयितुमारेभ्य भ्रातरम् रावणम् हतं स प्रविश्य परिम् लङ्काम् राक्षसेंद्रो विभीषणः रावणस्य अग्निहोत्रम् तु निर्यापयति सत्वरम् शकटान्दारुरूपाणि अग्निन्द्वै राजकान्त तथा चन्दनकाष्ठानि काष्ठानि विविधानि च ह गुरूणि सुगन्धिनि गन्धा च सुरभिन् तथा मणिमुक्ता प्रवालानि निर्यापयति राक्षसः आजगाम मुहूर्तेन राक्षसे परिवारितः ततो माल्यवता साधं, क्रियामेव चकारसः सौवर्णिं शिबिकां दिव्याम् आरोप्य क्षौमवाससम् वर्णम् राक्षसाधीशम् अश्ववर्णमुख द्विजाघोषैश्च विविधे स्तुवद्भिश्चाभिनन्दितम् विविधै चित्राभि सुमनोभिश्च चित्रिताम् उत्क्षिप्य शिबिकां तां तु विभीषण पूर्वमः दक्षिणाभिमुखात् सर्वे गृह्य भेजिरे अग्नेयो दीप्यमानासे तदा धर्युः समेरितः भीगता सर्वे पुरस्तात् तस्य देयुः अन्तः पुराणि सर्वाणि रुदमानानि चत्वारं पृष्ठतो नु यद्युस्तानि प्लवमानानि सर्वतः रावणं प्रयते देशे स्थाप्यते बृजदुःखितः चिन्ताम् चन्दन काष्ठै च पन्न कोशीर चन्दनैः रम्य संवर्तयामासु राङ्कवास्तरणावृताम् प्रचक्रो राक्षसेन्द्रस्य पितृमेधमनुत्तमम् वेदिम् च दक्षिणा प्राचिम् यथास्थानम् च पावकम् प्रशता जेन स्कन्धे प्रशिक्षिपु पादयोशकटम् प्रापु पूर्वोचो लुखलम् तदा दारुपात्राणि सर्वाणि अरण्यम् उत्तरारणिम् दत्त्वा तु मुसलम् चान्यम् यथास्थानम् विचक्रमुः शास्त्रदृष्टेन विधिना महर्षिभीतेन च तत्र पशुम्हत्वा पशुं से राक्षसः परितरणिकाम्राज्ञो गुतां समवेशयन् गन्धर्मालयङ्कृत्य रावणं दीनमानसः सह, विभीषणः सहायास्ते वस्त्रे च विविधैरपि लाजैर वै किरन्ति स्म बाष्पूर्णमुखासथा स दलो पावकं विधियुक्तं विधियुक्तम् विभीषणः स्नात्वा चैवलान् दर्भ विमिश्रितान् पुनकेन प्रदाय विविध विधिपूर्वकम् ताश्रियोनुनयामास सान्त्वयित्वा पुनः पुनः गम्यतामिति ता सर्वा विभीषुर्नगरं ततः प्रविष्टासु पुरीं श्रीषु राक्षसेन्द्रो राम पाशुम् आगम्य समतिष्ठतवत् रामोऽपि सैन्येन स सुग्रीव स लक्ष्मणः हस्यं लेभिं हत्वा पुत्रं वज्रधरो यथा ततो विमुक्तः सजरं च कवचं सतन्वत् विमोच रोचं रिपुनिग्रह ततो सौम्य त्वमुपाय गतोरिहारित्या वाल्मीकि अजक वे युद्धकाण्डे एकादशाधिकशतम सर्गः श्रीसीतारामचन्द्रार्पणमस्तु